अथैकोनविंशः सर्गः तदप्रियममित्रघ्नो वचमम् मरणोपमम् श्रुत्वा न रामह रामः कैकेयीम् चेदमब्रवीत् एवमस्तु गमिष्यामि वनम् वस्तुमहम् द्वितः जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन् इदं तु ज्ञातुमिच्छामि किमर्थम् माम् महीपतिः नाभिनन्दति दुर्धरशो यथा पूर्वमरिन्दमः मन्युर्न च त्वयाकार्यो देवि ब्रूमितमाग्रतः यास्यामि भव सुप्रीता वनम् चीरजटाधरः हितेन गुरुणा पित्रा घृतज्ञेन नृपेण च नियुज्यमानोऽपिस्रब्धः किम् न कुर्यामहम् प्रियम् अलीकम् मानसन्त्वेकम् हृदयन्तः मम स्वयम् यन्नाह माम् राजा भरतस्याभिषेचनम् अहम् हि सीताम् राज्यम् च प्राणानिष्टान्धनानि च हृष्टो भ्रात्रे स्वयम् नद्याम् भरताय प्रचोदितः किम् पुनर्मनुजेन्द्रेण स्वयम् पित्रा प्रचोदितः तव च प्रियकामार्थम् प्रतिज्ञामनुपालयन् तथाश्वासय ह्रीमन्तम् किम् त्विदम् यन्महीपतिः वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति गच्छन्तु चैव नयितुम् दूताः शीघ्रजवैर्हयैः भरतम् मातु नकुला दद्यैव नृपशासनात् दण्डकारण्यमेषोऽहम् गच्छाम्येव सत्वरः अविचार्य पितुर्वाक्यम् समावस्तुम् चतुर्दश सा हृष्टा तस्य तद्वाक्यम् श्रुत्वा रामस्य कैकयी प्रस्थानम् श्रद्दधानासा त्वरयामास राघवम् एवम् भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः भरतम् मातुलकुलादिहावर्तयितुम् नराह तव त्वहम् क्षमम् मन्ये नोत्सुकस्य विलम्बनम् राम तस्मादितः शीघ्रम् वनम् त्वम् गन्तुमर्हसि व्रीडान्वितस्वयम् यच्च नृपस्त्वान्नाभिभाषते नैतत्किञ्चिन्नरश्रेष्ठमन्युरेषोपनीयताम् यावत् त्वन्नवनम् यातः पुरा तस्मादतित्वरम् पिता तावन्नते रामः स्नास्यते भोक्ष्यतेऽपि वा धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः मूर्च्छितोऽन्यप तत्तस्मिन् पर्यङ्के हेमभूषिते रामो रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः कषये वहतो वा जीवनम् गन्तुम् कृतत्वरः तदप्रियमनार्याया वचनम् दारुणोदयम् श्रुत्वा गतव्यथो रामः कैकेयीम् वाक्यमब्रवीत् नाहमर्थपरो देवि लोकमा वस्तुमुत्सहे विद्धि मा मृषिभिस्तुल्यम् विमलम् धर्ममास्थितम् भवता किंच मया, यिछक्य कर्म प्रिय मैणन भी परतज्यत न तो धर्मचरण किंचिदस्त महत्मित शुश्रूषा तस्वचन क्रिया अनुक्प्यता वचनाद वने वत्स्यामि विजने वर्षाणीह चतुर्दश नन्यूनम् मयि कैकेयि किञ्चिदाशंससे गुणान् यद्राजानमवोचस्त्वम् ममेश्वरतरा सती पृच्छे सीताम् चानुनयाम्यहम् ततोद्यैव गमिष्यामि दण्डकानाम् महद्वनम् भरतः पालयेद्राज्यम् पितुर्यथा तथा भवत्या कर्तव्यं स हि धर्मः सनातनः रामस्य तु वचः श्रुत्वा भृशम् दुःखगतः पिता शोकादशक्नुवन् वक्तुम् प्ररुरोदमहास्वनम् वन्दित्वा चरणौ राज्ञोऽभिसञ्ज्ञस्य पितुस्तदा कैकेय्याश्चाप्यनार्याय निष्पपातमहाद्युतिः सरामः कृत्वा कैकेयीम् च प्रदक्षिणम् निष्क्रम्यान्तः पुरा तस्मात्स्वन्ददर्शसुहृज्जनम् तम् बाष्परिपूर्णाक्षः पृष्ठतो नु जगामः लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः आभिषेचनिकम् भाण्डम् कृत्वा रामः प्रदक्षिणम् शनैर्जगामसापेक्षो दृष्टिम् तत्रा विचालयन् न चास्य महतीम् राज्यनाशोपकर्षति लोककान्तस्य कान्तत्वाच्छीतरश्मेरिवक्षयः नवनम् गन्तुकामस्य त्यजतश्च वसुन्धरा सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया प्रतिषिध्यशुभम् छत्रम् व्यजने च स्वलम् कृते विसर्जयित्वा स्वजनम् रथम् पौराम्स्तथा जनान् धारयन्मनसा दुःखमिन्द्रियाणि निगृह्य च प्रविवेशात्मवान्वेश्म मातुरप्रियशंसिवान् सर्वाप्यभिजनः श्रीमाञ्छीमतः सत्यवादिनः नालक्षयत रामस्य कञ्चिदाकारमानने उचितम् च महाबाहुर्न जहौ हर्षमात्मवान् शारदः समुदीर्णाम् वाचा मधुरया रामः सर्वम् सम्मानयञ्जनम् pravivesha मातुः समीपम् धर्मात्मा प्रविवेशमहायशाः तम् गुणैः समताम् प्राप्तो भ्राता विपुलविक्रमः सौमित्रिरनुवव्राजधारयन् दुःखमात्मजम् प्रविश्यवेश्मातिभृशम् उदायुतम् समीक्ष्यताम् चार्थविपत्तिमागता न चैव रामोऽत्र vipatti सुहृर्जनस्यात्मविपत्तिशङ्कया इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनविंशः